मार्कण्डेयपुराणम् अध्यायं 60 मार्कण्डेय उवाच यत्तु किं पुरुषं वर्षं तत्प्रवक्ष्याम्यहं द्विज यत्रायुर्दशसाहस्रं पुरुषाणां वपुष्मताद अनामया ह्यशोकाश्च नरा यत्र तथा स्त्रियः प्लक्षः षण्ठश्च तत्रोक्तः सुमहानन्दनोपमः तस्य ते वैफलरसं पिबन्तः पुरुषात् सदा स्थिरयौवननिष्पन्नास्त्रियश्चोत्पलगन्धिकाः अतः परं किं पुरुषाद्धरिवर्षम् प्रचक्ष्यते रचद महारचदसङ्काशा जायन्ते तत्र मानवाः देवलोकच्युतास्सर्वे देवरूपाश्च सर्वशः हरिवर्षे नराः सर्वे पिबन्दी क्षुरसं शुभं न जराबाधदे तत्र न च कर्हिचिद् तावन्तमेव ते कालं जीवन्त्यथ निरामयाः मेरुवर्षं मया प्रोक्तं मध्यमं यदिलावृतं न तत्र सूर्यस्तपदि न ते जीर्यन्ति मानवाः लभन्तेनात्मलाभं च रश्मयश्चन्द्रसूर्ययोः नक्षत्राणां ग्रहाणां च मेरोस्तत्र पराद्युतिः पद्मप्रभाः पद्मगन्धा जम्भूफलरसाशिनः पद्मपत्रायताक्षास्तु जायन्ते तत्र मानवाः वर्षाणा दुसहस्राणि तत्राप्यायुस्त्रयोदश सरावाकारसंस्तारो मेरुमध्ये इलावृते मेरुस्तत्र महाशैलस्तदाख्यातमिलावृतं रम्यगं वर्षमस्माच्च कथयिष्ये निबोधतद वृक्षस्तोत्ंगो न्य्रोधो हरतचदी ते फलर पिबंदो वर्तय वर्षा युतायुष्स्त नरस्तलोगि प्रधान विमला जरा दौर्गंध्यवर्जिता तस्मादधोत्तरं वर्षं नाम्नाख्यादं हिरण्मयं हिरण्वदी नदी यत्र प्रभूदकमलोज्ज्वला महाबला सतेजस्का जायन्ते तत्र मानवाः महाकाया महासत्वा धनिनः प्रियदर्शनाः इति श्रीमार्कण्डेयपुराणे किं पुरुषादिवर्षवर्णनं नाम षष्टितमोऽध्यायः